श्री श्री महा भ्य नम हरी ओमगणाधिपत नम जगदु आद्यश्रीशंकराचार्यगवत्म अष्टोरशतनावि ध्यान कैलासाचल मध्यस्थ काभक ब्रह्मादिप्रार्थना प्राप्ता दिव्यमानुषविग्रहम् भक्तानुग्रहणैकान्तशान्तस्वान्तसमुज्ज्वलम् संयज्ञम् संयमेन्द्राणाम् सार्वभौमम् जगद्गुरुम् किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् जायामि शङ्कराचार्यम् सर्वलोकैकशङ्करम् ध्यायामि शङ्कराचार्यम् सर्वलोकैकशङ्करम् ॐ श्रीशङ्कराचार्यवर्याय नमः ॐ श्रीब्रह्मानन्दप्रदायकाय नमः ॐ अज्ञानतिमिरादित्याय नमः ॐ सुज्ञानाम्बुधिचन्द्रमसे नमः ॐ वर्णाश्रमप्रतिष्ठात्रे नमः ॐ श्रीमते नमः ॐ मुक्तिप्रदायकाय नमः ओम् शिष्योपदेशनिरताय नमः ॐ भक्ताभीष्टप्रदायकाय नमः रहस्य हस्यज्ञा नम ओं कार्यकार्य प्रबोधकाय नम ओं ज्ञान मुद्रंकितय नम ओं शिष्यवृत्तापा नम ओं परव्राजाश्रमोधर्े नम ओंसवतंत्र नम म् अद्वैतस्थापनाचार्याय नमः ओम् साक्षात् शङ्कररूपद्धृते नमः ओम् षण्मतस्थापनाचार्याय नमः ॐ त्रयीमार्गप्रकाशकाय नमः ॐ वेदवेदान्ततत्त्वज्ञाय नमः ॐ दुर्वादिमतखण्डनाय नमः ॐ वैराग्यनिरताय नमः शान्ताय नमः ॐ संसारार्णवतारकाय नमः ॐ प्रसन्नवदनाम्भोजाय नमः ॐ परमार्धप्रकाशकाय नमः ॐ पुराणस्मृतिसारज्ञाय नमः ॐ नित्यतृप्ताय नमः ॐ महते नमः ॐ शुचये नमः नित्यानन्दाय नमः ॐ निराटङ्काय नमः ॐ निस्सङ्गाय नमः ॐ निर्मलात्मकाय नमः ॐ निर्ममाय नमः ॐ निरहङ्काराय नमः ॐ विश्ववन्द्यपदम्बुजाय नमः ॐ सत्वप्रधानाय नमः ॐ सद्भावाय नमः ओम् सङ्ख्यातीतगुणोज्ज्वलाय नमः ओम् अनघाय नमः ओम् सारहृदयाय नमः ॐ सुधिये नमः ॐ सारस्वतप्रदाय नमः ओम् सत्यात्मने नमः ॐ पुण्यशीलाय नमः ॐ साङ्ख्ययोगविचक्षणाय नमः ॐ तपोराशये नमः ॐ महातेजसे नमः त्रयविभागविदे नमः ॐ कलिघ्नाय नमः ॐ कालकर्मज्ञाय नमः ॐ काल तमोगुणनिवारकाय नमः ॐ भगवते नमः ॐ भारतीजेत्रे नमः ॐ शारदाह्वानपण्डिताय नमः ॐ धर्माधर्मविभागज्ञाय नमः ॐ लक्ष्यभेदप्रदर्शकाय नमः म् नादबिन्दुकलाभिज्ञाय नमः ॐ योगिहृत्पद्मभास्कराय नमः ओम् अतीन्द्रियज्ञाननिधये नमः ओम् नित्यानित्यविवेकवते नमः ओम् चिदानन्दाय नमः ओम् चिन्मयात्मने नमः ॐ परकायप्रवेशकृते नमः ओम् अमानुषचरित्राढ्याय नमः ॐ क्षेमदायिने नमः ॐ क्षमाकराय नमः ॐ भव्याय नमः ॐ भद्रप्रदाय नमः ॐ भूरिमहिम्ने नमः ॐ विश्वरञ्जकाय नमः ॐ स्वप्रकाशाय नमः ॐ सदाधाराय नमः ॐ विश्वबन्धवे नमः ॐ शुभोदयाय नमः ओम् विशालकीर्तये नमः ॐ वागीशाय नमः ॐ सर्वलोकहितोत्सुकाय नमः ॐ कैलासयात्रासम्प्राप्तचन्द्रमौळिप्रपूजकाय नमः ओम् काञ्च्याम् श्रीचक्रराजाख्ययन्त्रस्थापन दीक्षिताय नमः ॐ श्रीचक्रात्मकताटङ्कतोषिताम्बमनोरथाय नमः म् श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः ओम् चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः ओम् महामतये नमः ओम् द्विसप्ततिमतोच्छेत्रे नमः ओम् सर्वदिग्विजयप्रभवे नमः ओम् काशाय वसनोपेताय नमः ओम् भस्मोद्धूलितविग्रहाय नमः म् ज्ञानात्मकैकदण्डाढ्याय नमः ॐ कमण्डलुलसत्कराय नमः ओम् गुरुभूमण्डलाचार्याय नमः ॐ भगवत्पादसञ्ज्ञकाय नमः ॐ व्याससन्दर्शनप्रीताय नमः ॐष्यश्रृङ्गपुरेश्वराय नमः ॐ सौन्दर्यलहरीमुख्य बहुस्तोत्रविधायकाय नमः ओम् चतुष्षष्टिकलाभिज्ञाय नमः ॐ ब्रह्मराक्षसमोक्षदाय नमः ओम् श्रीमन्मण्डनमिश्राख्य स्वयम्भूजयसन्नुताय नमः ॐ तोटकाचार्यसम्पूज्याय नमः ओम् पद्मपादार्चिताङ्घ्रिकाय नमः ॐ हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकाय नमः ॐ सुरेश्वराख्यसच्छिष्यसन्न्यासास्त्रमदायकाय नमः ॐ नृसिंहभक्ताय नमः ॐ सद्रत्नगर्भहैरम्बपूजकाय नमः ॐ व्याख्यासिंहासनाधीशाय नमः ओम् जगत्पूज्याय नमः ओम् जगद्गुरवे नमः श्रीमच्छङ्करभगवत्पादाचार्यस्वामिने नमः शान्तिः शान्तिः शान्तिः